ध्यायतः किन्न प्राप्ते काले विवर्धते भीमसेनं हि कर्माणि स्वयं कुर्वाण मन्युतम् सुखार्हम् दुःखितम् दृष्ट्वा अकस्मान्मन्युर्न वर्धते सत्कृतम् विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा तम् वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते अयम् कुरून् रणे सर्वान् हन्तुमुत्सहते प्रभुः त्वत्प्रतिज्ञाम् प्रतीक्षं स्तु सहते यौवृकोदरः योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना शरावमर्देशिघ्रत्वात्कालान्तकयमोपमः यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे तमिमम् पुरुषव्याघ्रम् पूजितम् देवदानवैः ध्यायन्तमर्जुनम् दृष्ट्वा कस्माद्राजन् दृष्ट्वा वनगतं पार्थमदुःखार्हम् सुखोचितम् न च वर्धते मन्युस्ते नमुह्यामि भारत यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोजयत् तंते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परन्तप क्षिपत्येकेन वेगेन पञ्चबाणशतानी